श्रीहरये नमः अथ सप्तमोऽध्यायः श्रीशुक उवाच एवं पुणं मैत्रेयं त्वयिबायनसुतोऽभुतः प्रीणयन्निव भारत्या पितुरः प्रत्यभाषतः पितुर उवाच ब्रह्मन् कथं भगवतश्चिन्मात्रस्य अभिकारिणः लीलया चाभियोज्रेरन् निर्गुणस्य गुणाक्रियाः क्रीडायामुद्यमोर्भस्य कामश्चिक्रीडिशान्यतः स्वतःस्तृप्तस्य च कथं निर्निवृत्तस्य सधान्यतः अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया तया संस्थाभयेत् एतद्भूय प्रत्यभिधास्यते तेषतः कालतो योऽसा व्यवस्था स्वतोऽन्यतः अविलुप्तावभूतात्मा सयुज्येता जया सर्वक्षेत्रेषु अवस्थितः अमुष्य वा क्लेशो वा कर्मभिः कुतः एतस्मिन्मे मनो विध्वन् किद्यते ज्ञानसङ्कटे तन्नः पराणुदविभो कस्मलं मानसं महत् श्रीशुक उवाच सहित्तं चोदितक्षत्रा तत्त्वजिज्ञासुना मुनिः प्रत्यागभगवच्चित्तस्मयन्निबघतस्मयः मैप्रेयौ वाच सेयं भगवतो मायायन्नयेन विरुध्यते ईश्वरस्य विमुक्तस्य कार्पण्यमुदभन्धनं यथर्थेन विनामुष्य पुंस आत्मविपर्यय प्रतीयतमुभदृष्ट स्वशिरश्चेतनादिकः यथा जले चन्द्रमसः कम्बाधिस्तत्कृतो गुणः दृश्यते सन्नपि दृष्टो आत्मनो मनोगुणः स वै निवृत्तिधर्मेण वासुदेवानुकम्पया भगवद्भक्तियोगेन तिरोधत्ते सैनरिह पारमो तद्ध्रष्ट्रात्मनि परेहरो विलीयन्ते तथा क्लेश संसुप्तस्येव कृत्स्नसहा अशेष सङ्क्लेशसमं विदधे गुणानुवादश्रवणम् कुतः पुनस्तश्च चरणारविन्धपरोगसेवा रधिरात्मलब्ध वितुर उवाच सञ्चिन्न संशयो मह्यं तव सूक्तासिना विभो उभयत्रापि भगवन्मनमोऽप्रधावधि सात्वे तत् व्याकृतं विद्वन् आत्ममायायनं हरे आभ्वाय्भि यश्च मूढतमो लोके यश्च बुद्धे परं गतः तावुभौ सुखमेधेते क्लिश्यत्यन्त्रितो जनः अर्थभावं विनिश्चित्य प्रतीतस्यापि नात्मनः तां चापि युष्मश्चरणसेवयाहं पराणुते यत्सेवया भगवतः कूटस्थस्य मधुद्विषः रतिरासो भवेत् तीव्रपाधयोः धूराबाह्यल्पदपसेवा वैकुण्ठवत्मसो यत्रो भगीयते नित्यं देवदेवो जनार्दनः सृष्ट्वा क्रेम कदादीनि सविकराणि अनुग्रहात् तेभ्यो विराजमुद्धृत्य तमनुप्रवासि यमाकुराद्यं पुरुषं सहस्राङ्घ्र्युरुबाहुकम् यत्र विश्व इमे लोकासविकासं समासते यस्मिन् दशवितः प्राणश्सेन्द्रियास्तेन्द्रियस्त्रिव्रत् त्वयेरितो यतो वर्णास्तथद्विभूतिर्वतस्त्वनः यत्र पुत्रैश्च पौत्रैश्च नपृद्भि न द्रुभिः सह गोत्रजेः प्रजा विचित्राकृतय आसन्याभिरिधं तथं प्रजापतीनां सपतिश्च सल्कृभेकान् प्रजापतीन् एतेषामभि वंसांश्च वंसानुचरितानि च उपर्यदर्शय लोका भूमेर्मित्रात्मजासते तेषां संस्थां प्रमाणां च भूर् लोकस्य च वर्णया रयङ्मानुषदेवानां शरीशृपपदतॄणां वदनः सर्गसंयूकं गर्भस्वे तद्विजोद्भितां गुणवातरैर्विश्वस्य श्रयं सुजदक्षि निवासश्च व्याचक्ष्वोद्धारविक्रमम् कर्णाश्रमविभागांश्च रूपशीलस्वभावदः ऋषीणां जन्मकर्मादि वेतस्य च विकर्षणं यज्ञश्च विधानानि योगस्य च पदः प्रभो नैष्कम्यश्च ससाङ्गस्य तन्त्रं वा भगवत् स्मृतं प्रतिलोमनिवेशनं जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः वार्ताया दण्डनीतेश्च श्रुतश्च च विधिं पृथक् श्राद्धस्य च विधिं ब्रह्मखन् पितॄणां स्र सर्गमेव कालावयवसंस्थितम् धानस्य तपसो वापि यच्चेष्टापूर्तयो फलम् प्रवासस्तस्य यो धर्मो यश्च पुंसभुतापधि येन वा भगवान् स्तुष्येद्धर्मयो निर्जनार्दनः सम्प्रसीदति वा येषाम् एतधाख्या ये चानघ अनोव्रतानाम् शिष्याणां पुत्राणां च द्विजोत्तमः अनापृष्टमभिभ्रूयोर्गुरो बोधीनवत्सलाहा तत्त्वानां भगवन्स्तेषां कथिता प्रतिसङ्ग्रमः तत्प्रेमं क उपासीरन् क स्विधनुसेरथे पुरुषस्य च संस्थानां स्वरूपं वा परस्य च ज्ञानञ्च नैगमं यद्धद् गुरुशिष्यप्रयोजनम् निमित्तानि च तस्येकप्रोक्तानि अनेकशूरिभिः श्वेतोज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा एतान्मे पृच्छतः प्रश्नान् हरे कर्म विवित्सया भ्रूकु इमेज्ञस्य मित्रत्वात् अजयानश्च चक्षुषः सर्वे वेताश्च यज्ञाश्च तपोधानानि चानघ जीवाभयप्रधानस्य न कुर्बीरन् कलामपि श्रीशुक उवाच सहित्तम् आपृष्टपुराणकल्पगुरुप्रधानेन मुनिप्रधानः प्रवृद्धहर्षो भगवद्गथाया सञ्चोदितस्तम् प्रगसन्निवाह इति श्रीमद्भागवते महापुराणे तृतीयस्तन्ते सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् Govinda Govinda